मुद्गलपुराणम् खण्डम् त्रि महोदरचरितम् अध्यायम् फैव् स्कन्दमाहात्म्यम् श्रीगणेशाय नमः ततः कामसमायुक्तशङ्करो भूतया सह पार्वत्या पुत्रकामार्थं रेमे कर्षसमन्वितः ततस्तस्य महेशस्य क्रीडदः प्रकदानि वै वर्षाणि हि सहस्राणां षष्टिर्देवर्षिसतमः महामायायुधशम्भुर्न बुबोधदिवानिशं ततस्तस्य महेशस्य हृदि भङ्गार्धमाकताः देवास्तैः प्रेषितो वह्निर्द्विजरूपधरो ययौ भिक्षां देहि जगादासौ तच्छ्रुत्वा तौ समुद्धितौ पपादभूदले वीर्यं शिवस्यैवोद्धितस्य च तदेव पार्वतीविप्रा ददौ वै भिक्षुकाय च शिववीर्यं तदस्तेन प्राशिदं दहनेन वै अभवद्दाभसं युक्तो गङ्गायामक्षिपत् सतत् कार्तिकस्नानकार्यार्थं कृत्तिकाभिर्महाद्भुतं षड्भिः समागदाभिस्तत्पीदमाचमनेन वै स्नात्वा स्वगृहेताश्च गदा सद्यः समुज्ज्वलाः पदिभिः परवीर्येण युक्ता सन्त्याजिता ययुः शरस्तम्बे महद्वीर्यं त्यक्त्वा स्नात्वा पुनर्गृहं ययुस्तत्र समुत्पन्नषण्मुखो बालको बभौ सदृष्टो गच्छदा तत्र नारदेन शिशुः ज्ञात्वा ध्यानेन कैलासे गदो भून्मुनिसत्तमः तत्र शक्रियै स वृत्तान्तं कथयित्वा महामुनिः यदृच्छा चकार बालमायययौ चकारबालमागृह्यस्तनपानं यशस्विनी वह्नि गङ्गाकृतिकाद्या मातरस्तस्य तं ययुः शिवेन मातरसर्वा सत्कृता स्वगृहं ययुः ब्रह्मेशाद्यैस्तदो देवैर्मुनिभिस्सोऽभिषेकितः देवसेनापदित्वे सप्रययौ सेनया प्रार्थितस्तारकस्यैव नाशाय बलवान् स्वयम् स्कन्दस्य तारकस्यैव युद्धं परमदारुणं संजादं च तदस्कन्दो भृशं शक्र्या जखानतं सम्मूर्झितो महादैत्यः भवद ताडयामास तं स्कन्दं गदया क्रोडसंयुधः पदिदम् वीक्ष्य दे, दे कार्तिकेयं तं दैत्यस्वस्थानमायययौ तद ओषधिभिर्देहैः सावधानकृदो भवद स्कन्दः परमदुःखार्थशङ्करं शरणं ययौ जयोपायं वद ब्रह्मन् शिवशान्तिप्रदम् तथा सर्वार्थः साधकम् पूर्णम् तम् भजामि विशेषदः ततश्च शम्भुनाथस्मै गणेशस्य षडक्षरः मन्द्रोदत्तो विशाखाय ज्ञानं सङ्कथितम् परम् शम्भुरुवाच शृणुस्कन्दमहायोगं येन शान्तो भविष्यसि चित्ते चिन्तामणिं ज्ञात्वा शान्ता जादा वयंपुरा वयं पुरा यद्यच्चित्तेन वैपुत्रलभ्यते तत्प्रणश्वरं जानीहि चित्तं ब्रह्माकारं योगसेवया अन्तर्बाह्यादिभेदा ये ते सर्वे चित्तसम्भवाः ओङ्कारोऽर्थसमायुक्तश्चित्तरूपो न संशयः स्वकोत्थानम् बभौ ब्रह्मपरोत्थानकमेव चित्तरूपं विजानीहि बुद्ध्या मोहप्रदं कृदम् स्वानन्दश्च निवृत्तिश्च चित्तरूपेन संशयः बहुनात्र किमुक्तेन चित्तं सर्वात्मकम् बभौ ब्रह्माकारं च जानीहि जगदाकारकं तथा चित्तं पञ्चविधं पुत्रजहि तद्योगसेवया चित्ते यद्बिम्बितं ब्रह्म भवदि भ्रमसंयुधं बिम्बभावं परित्यज्य भव चिन्तामणिःसुधा चित्तं त्यक्त्वा महाभागत्वन्नभिन्नो भविष्यसि एतदेव परं जानं शान्तिरूपं वदन्ति च रविरुवाच शिवस्य वचनं श्रुत्वा तं प्रणम्यय कार्तिकेयस्य विघ्नेशं ध्यायंश्च विधिपूर्वकं षडक्षरविधानेन पूजति स्म निरन्तरं मन्द्रं जापवैस्कन्दस्तदाप तप उत्तमम् वायुभक्षः सदा भूत्वा जपध्यानपरायणः दण्डकारण्यदेशे स गजाननमतोषयत ततो वर्षसहस्रेण शान्तियोगमवापः कार्तिकेयस्य विघ्नेशमभज तदपि द्विजाः ततस्तुष्टो गणेशानो ययौ तं भक्तमुत्तमम् तं दृष्ट्वा प्रणनामाधपूजयन्भक्तिसंयुधः ततस्तुष्टावविघ्नेशं कार्तिकेयो महाद्युदिः कृत्वा करपुडं विभ्रा स्वानुभावपरायणः स्कन्द उवाच नमस्ते योगरूपाय सम्प्रज्ञादशरीरिणे असम्प्रज्ञादमूर्ध्ने ते तयोर्योगमयाय च वामाङ्गे भ्रान्तिरूपादेसिद्धिः सर्वप्रदाप्रभो भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके मायासिद्धिस्तदा देवो मायिको बुद्धिसंज्ञः तयोर्योगे गणेश न त्वं स्थितोऽसि नमोऽस्तु दे जगद्रूपो गकारश्चनकारो ब्रह्मवाचकः तयोर्योगे गणेशाननामातुभ्यं नमो नमः चतुर्विधं जगत्सर्वं ब्रह्मतन्त्रं सदात्मकं हस्तास् चत्वार एवं ते चतुर्भुज नमो नमः स्वसंवेद्यं च यद्ब्रह्म तत्र केलकरो भवान् तेन स्वानन्दवासि त्वं स्वानन्दपतये नमः द्वन्द्वं चरसिभक्तानां हृदि तेषां व्यवस्थितः चौरवत् तेन ते भूद्वै मूषको वाहनं प्रभो जगदिब्रह्मणि स्थित्वा भोगान् भुङ्क्षे सुयोगगः जगद्भिर्ब्रह्मभिस्ते तच्चेष्टितं ज्ञायतेन च चौरवद्भोगकर्तात्वं तेन ते वाहनं परम् मूषको मूषकारूढ हैरम्बाय नमो नमः किं स्तौमि त्वां गणाधीशयोगशान्तिधरं परं वेदादयो ययुःशान्तिमदो देवं नमाम्यहम् इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाचः वरं वृणुमहाभागचेद्धिदास्यामि दुर्लभं त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेद् मयि भक्तिकरं स्कन्दसर्वसिद्धिप्रदं तथा यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रयन्द्रितः पठदे शृण्वदे नित्यं कार्तिकेयविशेषतः एवं गणेशवाक्यं वै श्रुत्वा हर्षसमन्वितः जगादगणपं वाक्यं कार्तिकेयस्य योगविदस्कन्ध उवाच किं वृणोमि गणेशान सर्वं भ्रान्तिमयं विभो अद त्वदीय भक्तिं सुदृढां देहि विघ्नप जगादगणराज गणराजस्य ततस्तं भक्तवत्सलः मदीया भक्तिरुग्रादे भविष्यति सदानख तारकाद्यान्महादैत्यान्त्वमेव च हनिष्यसि यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति एवमुक्त्वान्तर्दधेः सौ गणेशो भक्तमुत्तमं कार्त्तिकेयो भवत्तत्र संस्थितो गणपं स्मरन् ब्राह्मणैस्थापयामास मूर्तिं गणपतेः परां लक्षं विनायकं नाम्ना स चकारद्विगेरितः तस्य दर्शनमात्रेण वाञ्छितं लभते नरः तत्रैव मरणे प्राप्ते ब्रह्मभूतः स जायते ततो जगामः स्वगृहं कार्तिकेयः प्रतापवान् देवैः सह जघानासौ तारकासुरमुल्बणं हत्वा नरकदैत्यं स गणेशक्षत्रगो भवद तत्र विघ्नशमत्यन्तं भजते नित्यमादराद इति स्कन्दस्य माहात्म्यं कथितं सर्वदं परं पठदे शृण्वदेवापि ब्रह्मभूयकरं भवेद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते स्कन्दमाहात्म्यं नाम पञ्चमोऽध्यायः ओम्